अथ अष्टमस्कन्धः उक्त्वा मन्वन्तराण्यादौ गजेंद्रस्य विमोक्षणं तुस्वप्ननाशनं स्वर्ग्यं वर्णयामासमङ्गलं गजो गृहीतो ग्राहेण प्राणापदिहरिं स्तुवन् विमुक्तो भूत् प्रसन्नेन चक्रहस्तेन शार्ङ्गिणा अगस्त्यस्य पुरा शापादिन्द्रद्युम्नो गजोह्यभूद अनुग्रहा द्रमेशस्य सारूप्यं प्राप्त दुर्लभं देवलस्य दुशापेन गन्धर्वो निगृहीतो भगवदा शापान्मुक्तो दिवं ययौ युद्धे दैत्यायर्जिता देवाहरिणा बोधिताः परैः सन्धाया मृदलाभार्थम् चक्रुः क्षीराब्धिमन्थनम् अधो मग्नम् मन्धरं तु कूर्मरूपी जनार्दनः उद्धृत्याश्वास यत्सर्वान् ततो विषमभून्महद विशाग्निना दह्यमानान् लोकान् वीक्ष्य गृहान्विदः उमायानुमदस्तोर्णं जकास्स विषमीश्वरः अश्वरत्नगजादीनि समुत्पन्नानि सागराद आविर्भूदारमाविष्णुवक्षस्तान्वग्रहीत्सुरान् गृह्णन् पीयूषकलशम् धन्वन्तरिरथोद्धिदः बलादा गृह्णन् कलशम् दैत्येया मूढचेदशः भगवान् मोहिनीरूपमास्ताय परमाद्भुतम् विमोह्यजा सुरान् हास्यैरमृदम् प्राशयत् सुरान् अमृतालाभिन्नास्ते सम्भ्रान्ताक्रूरदृष्टयः युद्धे दिशो दिशः कामान्तकोऽपि दृष्ट्वैतन्मोहिनीरूपमद्भुतम् कामस्य वश्यमापह्न किमुदा सुरयूधवाः बलिः पुनर्ब्राह्मणानामनुग्रह बलैधितः त्रैलोक्यम् स्ववशे कृत्वा चक्रादीन् निरवासयद राज्यलाभ परीप्सया काश्यपानुग्रहं लब्ध्वा पयोव्रतमचीकरत् व्रतानुष्ठानसन्धुष्टपुत्रत्वं प्राप्य केशवः उपनिदो बलिर्यज्ञशालां सम्प्रापवामनः पूजितो बलिना सम्य भिक्षिप्त्वा त्रीन् क्रमान् हरिः विक्रमो त्रिविक्रमो राज्यम् देहम् चाप हरत् बले त्यक्त्वाहं मम दाम् भक्तो बलिः केशवदर्शितम् सुतलम् स्थानमापाग्र्यमिन्द्रो राज्यमवाप्तवान् हयग्रीवहृदान्वेदान्हत्वा तम् ब्रह्मणेभ्यदात् सत्यव्रतमरक्षच्च मत्स्यप्रलय वारिणः इति अष्ट